पत्तम्बोदावद् दशकम् दक्षन् पुनर्जन्म प्रदोस्तु नप्ता पृथुधर्म कर्मट प्राचीन बर्हिर्युवतौ सदत्रुतौ प्रचेतसो नाम सुचेतसस्तुदा अजीजन त्वत् करुणाङ्गुराणि पितुश्चि सृक्षानि रदस्य चासनाः भवत्तपस्यानि पयोनितिम् पश्चिममेत्यतत् तटे सरोवरम् सन्ददृशुर्मनोहरम् तथा भवत्तीर्थमितम् समागतो भवो भवत्सेवकदर्शनादृत प्रकाशमासाद्यपुरप्रचेतसा उपादिशद्भक्तसमस्तवस्त्वम् स्तवम् जपन्तस्तममी जलान्तरे भवन्तमासे विशदायुतम् समा भवत्सुका स्वातरसादमीष्विया बभूवखालो ध्रुवन् न चीकृत तपो बिरेषामधिमात्रवर्तिभिः स यज्ञ हिंसा निरतोऽपि पावित कृपा बलेनैव पुरप्रचेतसा प्रकाशमाघा बदगेन्द्रवाहन विराजिचक्रातिवरायुधांशुभि भुजाभिरिष्टाभिर् उदञ्चि दद्युती प्रचेतसाम् ताभदयाच तामपि त्वमेव कारुण्यभरात्परानतः भवत् विचिन्तापि भवद्वसौरुद्रनुतिश्च कामदा अवाप्य कान्ताम् तनया महीरुहा तया रमध्वम् दशलक्षवत्साम् सुतोऽस्तु दक्षो ननुदक्षणाश्च माम् प्रायस्यतेति न्यगदो मुदैवताम् तदश्च ते कृदा दहन्तो द्रुहिणेन वारिता द्रुमैश्च दत्तान्तनयामवाव्यता त्वदुक्तकालम् सुखिनो बिरेमिरे अवाप्यदक्षम् च सुतम् गृदा त्वरा प्रचेतसो नारदलब्धया धिया अवापरानन्दपतम् तताविद त्वमी च वातालयनाद पाहि मा ओम् you're not yeah, nah, yeah.